अथ अष्टाविंशत्यधिकद्विशततमोऽध्यायः जनमे जय उवाच किमर्थं शार्ङ्गका नग्निर्न ददाह तस्मिन् वने दह्यमाने ब्रह्मन्नेतत् प्रचक्ष्वमे अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च कारणं कीर्तितं ब्रह्मकाणां न कीर्तितं तदेतदद्भुतं ब्रह्मन् जार्गकाणाम् कथम् तेन विनाशिताः वैशम्पायनवाच यदर्थं शार्ङ्गका नग्निर्न ददाह तथा तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दना धर्मज्ञाना मुख्यतमस्तपस्वी संशितव्रतः आसीन् महर्षिः श्रुतवान् मन्दपालयति श्रुतः स मार्गमाश्रितो राजन्द्रषीणामुर्ध्वरेतसां स्वाध्यायवान् धर्मरतस्तपस्वी विजितेन्द्रियः स गत्वा तपसः पारम् देहमुत्सृज्य भारता जगामपितृलोकाय न लेभे तत्र तत्फलम् स लोकान फलान् दृष्ट्वा तपसा निर्जितानपि पप्रच्छ धर्मराजस्य समीपस्थान् दिवौकसः मन्दपालवाच किमर्थमावृता लोका ममैते तपसार्जिताः किं तत्र यस्यैतत्कर्मणः तत्राहम् तत्करिष्यामि यदर्थमिदमावृतम् फलमेतस्य तपसः कथयध्वम् दिवौकसः देवाऊचुः ऋणिनो मानवा ब्रह्मम् जायन्ते येन तच्छृणु क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः तदपक्रियते सर्वम् यज्ञेन तपसा विद्यते प्रजा त प्रसवस्यार्थे तव लोकाः समावृताः प्रजाय स्व ततो पुष्कलान्